अथैकपञ्चाशः सर्गः तेषाम् तु तु मुलम् शब्दम् वानराणाम् नर्दताम् राक्षसैः सार्धम् तदा शुश्राव रावणः स्निग्धगम्भीरनिर्घोषम् श्रुत्वा तम् निनदम् भृशम् सचिवानाम् ततस्तेषाम् मध्ये वचनमब्रवीत् यथासौ सम्प्रहृष्टानाम् वानराणामुपस्थितः बहूना सुमनाद मेघावर्जत सुव्यक्त महति प्रीतिरेतेषा ना प्र संश तथा विपुर्नादुभे लवणाणव तौ तो बद्ध शरस्तीतरौ राण अयमहाद श जनयतीव मे एवम् च वचनम् चोक्त्वा मन्त्रिणो राक्षसेश्वरः उवाचनैररताम्स्तत्र समीपपरिवर्तिनः ज्ञायताम् तूर्णमेतेषाम् सर्वेषाम् च वलौकसा शोककाले समुत्पन्ने हर्षकारणमुत्थितम् तथोक्तास्तेसु सम्भ्रान्ताः ददृशुः सेनां सेनाम् सुग्रीवेण महात्मना तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ समुत्थितौ महाभागौ विषे दुःसर्वराक्षसाः सन्त्रस्तहृदयाः सर्वे प्राकारादवरुह्यते विवर्ना राक्षसा घोराराक्षसेन्द्रमुपस्थिताः तदप्रियम् दीनमुखा कृत्स्नम् निवेदयामासुर्यथा वद्वाक्यको विदाः यौताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ तच्छ्रुत्वा वचनम् तेषाम् राक्षसेन्द्रो महाबलः चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत् घोरैर्दत्तवरैर्बद्धौ शरैराशीविशोपमैः अमोघैः सूर्यसङ्काशैः प्रमथ्येन्द्रजिता युधि तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू ममा संशयस्थमिदम् सर्वमनुपश्याम्यहम् बलम् निष्फलाः शराः पावकतेजसः आदत्तम् यैस्तु सङ्ग्रामे रिपूणाम् जीवितम् मम एवमुक्त्वा तु सङ्क्रुद्धो निःश्वसन्नुरगो यथा अब्रवीद्रक्षसाम् मध्ये धूम्राक्षन्नाम राक्षसम् बलेन महता युक्तो रक्षसाम् भीमविक्रमा त्वम् वधायाशु रामस्य स एव मुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता परिक्रम्य ततः शीघ्रम् निर्जगामनृपालयात् अभिनिष्क्रम्य तद्वारम् बलाध्यक्षमुवाचः त्वरयस्वबलं स्वबलम् शीघ्रम् किञ्चिरेण युत्सतः धूम्राक्षवचनम् श्रुत्वा बलाध्यक्षो बलानुगः बलमुद्योजयामास रावणस्याज्ञया भृशम् ते ब घंटा बलिण घोर रूप निशाचरा विन संह्रा धूम्राक्ष पर्यवा विविधाधहस्ता शूल मुद्गर पाणय गिपट्टिशर्दंडेरायसैर्मुसल पिघैर्भिंदी पलैश्च भल्ल पाश्व राक्ष सासा घोरा यथा रथैः कवचनस्त्वन्ये ध्वजैश्च समलङ्कृतैः सुवर्णजालविहितैः खरैश्च विविधाननैः हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः निर्ययुर्नैरृतव्याघ्रा व्याघ्रा इव दुरासदाः वृतसिंहमुखैर्युक्तम् खरैः कनकभूषितैः आरुरोह रथम् दिव्यम् धूम्राक्षः खरणिः स्वनः स निर्यातो महावीर्यो धूम राक्षो राक्षसैर्वृतः हसन् वै पश्चिमद्वाराद्धनूमान्यत्र तिष्ठति रथप्रवरमास्थाय खरयुक्तम् खरस्वनम् प्रयान्तन्तुमहाघोरम् राक्षसम् भीमदर्शनम् अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन् रथशीर्षे महाभीमो गृध्रश्च निपपातः ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः रुधिराद्रो महान्श्वेतः कबन्धः पतितो भुवि विस्वरम् चोत्सृजन्नादान् धूम्राक्षस्य निपातितः ववर्षरुधिरम् देवः सञ्च चालच मेदिनी प्रतिलोमम् तिमिरौघावृतास्तत्र दिशश्च सतूत्पातांस्ततो दृष्ट्वा राक्षसानाम् भयावहान् प्रादुर्भूताम् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत् मुमुः राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः ततः सु भीमो बहुभिर्निषाचरैर्वृतोऽभि निष्क्रम्य रणोत्सुको राघव बाहुपालिताम् महौघकल्पाम् बहु, वा बाहु बहु वानरीम् इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः